मुद्गलपुराणं खण्डं तु एकदन्तचरितम् अध्यायं तर्टिफोर् व्यासमाहात्म्यं श्रीगणेशाय नमः मुद्गल उवाच पराशरस्य पुत्रोऽभूद्व्याससाक्षाज्जनार्दनः वेदादिभागसिद्ध्यर्थं देवै सम्प्रार्थितः पुरा स नमनं ज्ञानगर्वेण मया विष्णुस्वरूपिणा ततस्तस्य गदं ज्ञानं सकलं वेदशास्त्रजम् प्रययौ दुःखितस्तेन ब्रह्माणं शरणं पुरा ब्रह्मणा भोदितो पुराणं श्रुतवान् प्रभोहो गाणेशमादिभूतं तत्तेन स ज्ञानवानभूद तपस्तप्त्वा सुविपुलं गाणपत्यो बभूवः शान्तियोगधरसाक्षाद्व्यासो नारायणस्वयं ततो व्यासेन वेदानां शाखा भिन्ना कृधा पराः सौलभ्यार्थं नराणां वै कर्मादिज्ञानसिद्धये आदौ वेदं यजुस्संज्ञं तं चतुर्धा विभज्यसः चादुर्होत्रं चकारैव कर्म सर्वं प्रजापते यजुषाध्वर्यवं चक्रे ऋग्भिर्होधृत्वमञ्जसा उद्गाधृत्वं चकारासौ सामभिः सर्वसम्मदः ब्राह्ममेवाकरोद्विप्रोद्धर्वाभिः सुसमाहितः एवं चतुर्विधं कर्म कृत्वा मान्यो बभूवः मन्त्रैर्युक्ता पुरा तेन संहिता विविधा कृता यज्ञार्थं ब्राह्मणं प्रोक्तं योगार्चं यदरण्यकम् तैलं शिष्यं मृग्वेदे भेदधारकं वैशम्पायनमेवं स यजुषां भेदधारकं जैमिनिं सामवेदस्य पारकं प्रचकारः अथर्वधारकं विप्रं सुमन्तुं मुनिसत्तमः तेन चाष्टौ कृताभेदा ऋग्वेदस्य महात्मना षडशीधिकृताभेदा यजुर्वेदस्य वै तथा एकं सहस्रं शाखानां सामवेदस्य वै कृतम् अथर्वणस्तथाभेदा कृता नवविवेकिना पुराणमेकरूपं वैशिष्याय प्रददौ मुनिः रोमहर्षण संज्ञाय सुदाय नदरूपिणे पुराणस्य कृताभेदा अष्टादशमहात्मना पुराणोपपुराणाद्याद्विविधा संहिता स्मृदा ब्राह्मं च वैष्णवं पात्मं शैवं भागवतं तथा भविष्यं ब्रह्मवैवृदं मार्कण्डेयं च वामनम् आग्नेयं वायवं माध्यं वाराहं कौर्ममेव च लैङ्गं गारुडकं स्कान्दं ब्रह्माण्डं च प्रजापते अष्टादशपुराणानि कथितानि विशेषतः तथैवोपुराणानि कथयामि प्रजापदे गणेशं नारदीयं च नारसिंहं च कापिलं नान्दिकेयं च वारुण्यं दौर्वाससमधाम्बिकम् कालिकेयं च मारीचमौशनस्सं च भार्गवं सनत्कुमारं चैव कौमारं च प्रजापदे माहेश्वरं च सौरं वै पाराश्चर्यं च मौद्गलम् अष्टादशपुराणानि कथितानि समासदः धर्मा धर्माधर्मव्यवस्थार्थं चक्रे भारदमुत्तमं एतत्सर्वं स जग्राहव्यासत्सुतो महामतिः एतानि गणपत्यानि ज्ञातव्यानि विचक्षणैः अन्यानि सेदिहासानि गणेशस्तुतिमन्दिवै श्रुत्वा सुवचनं तस्य मोहितामुनयः पुनः ऊचुसूदं महाप्रज्ञं संशयच्छेदनायते शौनकाद्या ऊचुः कथं सूदशिवादीनां पुराणानि महामते प्रोक्तानि गाणपत्यानि वद संशयमुक्तये तेषां वचनमाकर्ण्यसूदसर्वार्थकोविदः जगादतान्महाबुद्धिः संशयच्छेदनं वचः सुद उवाच गणेशस्य स्वरूपं यत्पञ्चधाव्यासभाषिदम् ज्ञातव्यं मुनिशार्दूलास्तेषाम् भेदं वदाम्यहम् आद्यम् ब्राह्मं पुराणं यद्गणपत्यम् प्रकीर्तितं निर्गुणो गणपस्तत्र वर्णितो ब्रह्मवाचकः हृदयेषु जनानां वैबुद्धीनां यत्प्रकाश्यकृत तदेव तस्य रूपम् तद्ध्यायन्ति त्यागिनः प्रभो आकारादिविहीनं तत्साक्षिभूतं सदा परम् मनोवाणीविहीनं च ज्ञातव्यम् ज्ञासिभिर्मुने तम् ध्यायन्ति महाभागा योगिनश्च चतुर्विधाः सन्न्यासिनो हृदिस्थम् ते गणेशं बुद्धिचालकम् अन्यदन्त्यम् पुराणं यद्ब्रह्माण्डं गणपश्यत तत्रोङ्कारमयाकारः सगुणो वर्णितः प्रभुः जगद्विहारकारी स पञ्चथाप्रबभूवः प्रणवक् प्रणवाकारो गजानन उदाहृदः अकारो कारको चैवमकारो नाद आबभौ बिन्धु पञ्च विभज्यात्मा नानाखेलं करोति सः जगदाकाररूपेण स्थितं विघ्नेशमादराद ध्यायन्ति जगदात्मानं प्रणवाकृतिलक्षणं स्मरन्ति तं द्विजा नित्यं वेदादौ कर्मसिद्धये ब्रह्माण्डाकारविघ्नेश सगुणः परिकीर्तितः तथैवोपपुराणेषु गाणेशं चाद्यमञ्जसा पुराणं तद्गणेशस्य भिन्नमूर्तिधरस्य च सगुणं जगदाकारं निर्गुणं बुद्धिचालकं तयो ज्ञानप्रसिद्ध्यर्थं मूर्तिमन्दं स्तुवन्ति ते गजवक्त्रादिचिह्नैश्च चिह्नितं गणनायकम् मन्त्रादिना भजन्ते तं भावयुक्ता महर्षयः तस्योपासनमात्रेण सगुणं निर्गुणं तथा सुलभं प्राप्यते ब्रह्मयोगिभिस्तापसोत्तमैः अन्त्यं मौद्गलमेतच्च पुराणोपनिषत्परम् तत्र विघ्नेशमाहात्म्यं योगाकारम् प्रकीर्तिदम् सगुणं निर्गुणं ब्रह्ममूर्तिरूपधरं मुने त्रयाणां योगरूपं वैमुद्गलेन प्रकाशितम् योगिनः शुकमुख्यास्तम् प्रभजन्ति यथा योगेनाभेद संज्ञेन वर्णाश्रमविवर्जिताः तस्मादादौ गणेशस्य पूजनं सर्वसम्मदं अंदे सोऽपि न सन्देहो वेदान्तेषु विशेषतः य आदिप्रलयान्देश तिष्ठेद्वै सर्वसम्मदं तस्मादाद्यन्तभागेषु पुराणेषु गणेश्वरः पञ्चमं मध्यरूपं च गणेशस्य महात्मनः कालांश्येन प्रसङ्ख्यातं नामरूपधरं मुनि शिवविष्णुवादिभेदैश्च सखेलदिगजाननः तेषां मध्ये पुराणानिव्यासेन कथितानि वै तस्मात् सर्वपुराणेषु गणेशस्यैव वर्णनं कथितं नात्र सन्देहो व्यासेनामिदबुद्धिना इदं पञ्चविद्धं रूपं गणेशस्य महात्मनः यो जानादि नरसोपि मोहहीनो भविष्यदी। चतुर्विधं गणेशस्य पूजनं कथितं सदा सर्वारम्भेषु सिद्धीनां दायकं भक्तिकारिणे मूर्तिपूजनमेकं च द्वितीयं प्रणवात्मकं तृतीयं बुद्धिदं चैव शान्तिरूपं चतुर्थकम् अध आदौ जना केजित् ग्रन्थेषु ब्रह्मरूपकं स्मरन्ति वा पूजयन्ति सर्वसिद्धिप्रदायकं केचिद् देवं हृदिस्थं संस्मरन्ति वा पूजयन्ति द्विजेन्द्राद्याः सर्वदा गणनायकम् केजिदोङ्गाररूपं तं पूजयन्ति स्मरन्ति वा सर्वादौ सर्वसिद्धीनां दायकं विघ्ननायकं केचिन्मूर्तिधरं देवं पूजयन्ति स्मरन्ति वा सर्वादौ गणनाथं च ज्ञातव्यं शास्त्रसम्मदम् आद आदौ तथा मध्ये सर्वान् ते स गजाननः शोभदे योगरूपेण शान्दितो भक्तवत्सलः ब्रह्मणा बोधितो व्यासो गाणपत्यः नानाभेदं चकारसहा वासनाच्छेदनार्थं च जनानां योगसिद्धये शिवादीनां क्रमार्थ क्रमार्थवर्णितानि वै यदद्व्यासस्य माहात्म्यं कथितं सकलं तव यशृणोति नरोभक्रिया पठेद्वैतस्य सर्वदम् ॐ तत्सदितिः श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे द्वितीये खण्डे एकदन्तचरिदेव्यासमाहात्म्यं नाम चतुस्त्रिंशोऽध्यायः ओ